गरुडपुराणम् आचारकाण्डम् अध्यायम् तन् हरिरुवाजा श्रदिपूजाम् प्रविश्र्यामि स्तण्डिदादिषु सिद्धये श्रीं श्रीं महालक्ष्म्यै नमः श्रां श्रीं श्रूं श्रीं श्रौं श्रक्रमाधृदयम् च शिरःशिखाम् कवचम् नेत्रमस्तम् च आसनमूर्तिमर्चयेद मण्डले पद्मगर्भेत चतुर्द्वारिरजोऽन्विते चतुष्षष्ट्यन्धमष्ठादिकाक्षे काक्षे कान्यादिमण्डलम् क्षा खा, काक्षीन्दुःसूर्यगम् सर्वम् कादिवेदेन्दुवर्तनाग लक्ष्मीमङ्गानि चैकस्मिन् कोणे दुर्गां गुणं गुरुं क्षत्रपालमधाग्न्यादौ होमाजुहावकामभाक ॐ खं तं दं खं श्री महालक्ष्म्यै नमः अनेन पूजये लक्ष्मीं पूर्वोक्तपरिवारकैः ॐ सौं सरस्वत्यै नमः ॐ ह्रीं सौं सरस्वत्यै नमः ॐ ह्रीं वद वद वाग्वादिनि स्वाहा ॐ ह्रीं सरस्वत्यै नमः इति श्रीगरुडे महापुराणे आचारकाण्डे लक्ष्म्यार्चननिरूपणं नाम दशमोऽध्यायः ओ